काटके प्रथमप्रश्नप्रारम्भः ओ सञ्ज्ञानम् विज्ञानम् प्रज्ञानम् जानदभिजानदे सङ्कल्पमानम् प्रकल्पमानमुपकल्पमानमुपकृतम् क्लृप्तम् श्रेयोगसीय आयत्सम्भूतम् भूतम् चित्रः क्लेतः प्रभानाभाम् सम्भान यो युष्मागस्तेजस्मानाथमग्रस्तपन्नभितमन्ने रोचनो रोचमानः शोभनः शोभमानः कल्याणः दर्शा दृष्टादर्शता विश्वरूपा सुदर्शना आप्यायमानाप्यायमानाप्यायासूनृतेराः आपूर्यमाणापूर्यमाणा पूरयन्ते पूर्णापौर्णमासे दाता प्रदातानन्दो मोदप्रमोदः आवेशयन् निवेशयन् संवेशनस्य विंशान्तः शान्तः आभवन् प्रभवन् सम्भवन् सम्भोदो भूतः प्रस्तुतम् विस्तृतपुंसग्रस्तुतम् कल्याणम् विश्वरूपम् शुक्रममृतम् तेजस्पितेजः समिद्धम् अर्णम् भानुम् मलीजमलभिरवत्तपस्पते अभिता अभिता देप्तो देवयम् देव्यमानः ज्वलम् ज्वलिता तपन्वितपन् सन्तपन् रोचनो रोचमानः शृम्भो शृम्भमानो वामः सुता सुन्वते प्रसुता सूचमानाभिषोजमाना वीरे प्रभासम्पादृच्छस्तर्पयन्ते कान्ता काम्या कामजाता युष्मदे कामदुःखा अभिशास्तानुमन्दानन्दो मोदः प्रमोदः आसादयन्निषादयन् सगुंसाद नः सगुंसन्नः सन्नः आभोर्विभो प्रभोः शम्भोर्भुवः पवित्रम् पवयिष्यन् मोदो मेभ्यः यशो यशस्वानायमृतः येवो जेवष्यान् सर्गो लोकः स हस्वान् स हि यानोज स्वान्सह जयन्नभिजयन् सुद्रविणोद्रविनोदाः आर्द्रपवित्रो हरिकेशो मोदप्रमोदः अरुणोरुणल पुण्डरेको विश्वजलभिज आर्द्रः बिम्बमानोन्नभान्तसभानिनामान् सर्वौषधः सम्भव महस्वान् एषत्काजो मत्काः क्षुण्डकाश्रुविष्टकाः सरिसरा अजिराधोगविष्णवः इदानीम् पदानी मेदलिः क्षिप्रमदिनम् आशुन्यमेधः फलोऽर्गवन्नचिद्रवन्न त्वरग्निस्त्वमान आशुराशीयाञ्जवः अर्निष्प्राममुक्षोदिरात्रोऽर्गिरात्रस्त्रिरात्रश्च दोरात्रः अर्घ्यरजः सूर्यरतश्चन्द्रमारुतोः दो प्रजापतिः संवत्सरो महाङ्कः धोरग्निम् च पृथिवेञ्च माम् च रे कृष्णलोकान्संवत्सरम् च प्रजापजश्वासादयतो रजयवतयाङ्ग्लस्पद्रुपादेन भोपायुम् चान्तरिक्षम् च माम् च रे कृष्णलोकान्संवत्सरम् च प्रजापजश्वासादयतो रजयवदयाङ्ग्लस्पद्रुपाधेन श्रीकृष्णलोकान्सम्वत्सरम् च प्रजापतिश्वासादयतु प्रजादेवतयाङ्ग्रुपाधीत भोर्भुवस्वच्छन्द्रमसञ्चरिदृष्टमाम् च श्रीकृष्णलोकान्सम्वत्सरम् च प्रजापतिश्वासादयतो प्रजा देवतयाङ्ग्रुपाधीत त्वमेव त्वाम्बे सयोधिषोऽसि त्वमेव त्त्वामजैषेः चिरश्चाभिसञ्चितश्चाशज्ञे एता वागश्चादिभूयागश्चाशग्ने यत्ते अग्नेऽन्योनञ्जिवेदि आदित्यास्तदङ्गिरस्तिवन्तो विश्वेते देवास्तिमापूरयन्तो चितश्चाभिसञ्चितश्चाश्लग्ने एता वागश्चादिभूयागश्चाश्लग्ने माते अग्ने तजेन मातितये वृक्षे सर्वेषाञ्ज्योतिषाञ्ज्योतिर्यदता उदेति तपसो जातमनिसृष्टमोजः तत्ते ज्योतिरिष्टके तेन मे तप तेन मेज्वला येन मे दीदिः दी। यावद्देवाः यावदसादिसूर्यः यावदता विब्रह्म संवत्सरोधिमयिवत्सरोधि इदावत्सरोधिवत्सरोधि यद्वत्सरोधिवत्सरोधि तस्य देवसन्तः शिरः ग्रीष्मो दक्षिणः पक्षः परिधाः पुच्छम् शरदुत्तरः पक्षः हेमन्तो मध्यम् पूर्वपक्षाश्चितयः अपरपक्षाः पुरेशम् अहोरात्राणेष्टकाः ऋषभोजिः स्वर्गो लोकः यस्याम् ततो लो महावः वायुर्भो त्वा सर्वादिश आवाहि सर्वादिशो न विवाहे सर्वादिशो न संवाहि चित्याच्युतिमापृणा अचित्याच्युतिमापृणा चिरति समुद्रयोनिः इन्दुर्दक्षस्य न वा हिरण्यपक्षस्य गुणोऽभुरण्यः महान् ध्रुवः निषत्तः नमस्तेऽस्तु मामाहि गंसेः छ अन्तरिक्षम् मे यच्छ पृथिवेम् मे यच्छ पृथिवेम् मेच्छा अन्तरिक्षम् मे यच्छा दिवम् मे यच्छा अन्ना रात्रिया प्रसारय अन्ना समजा कामम् प्रसारय भोद्भवस्वः भोजोबलम् ब्रह्मक्षत्रम् यशो महदन्तपो नाम रूपमहृतम् चक्षुषोक्तम् मलायुः विश्वम् यशो महः समन्तपोहलोभाः जातवेदाविनिवापावकोऽसि वैष्माकरोगिनिवा वेद्युतोऽसि सम्प्रदाभ्यविदमानाय लोकम् ुष्टम् दलभ्यापवृत्सा राज्ञी विराज्ञैः सम्राज्ञेः स्वराज्ञेः अर्चिः शोकिः अपोहरोभाः अग्निन्द्रो बृहस्पतिः विश्वे देवाभुवनस्य गोपाः ते मासरु वेशशासकम् सृजन्तो असरे स्वाहा वसवे असर स्वाहा विभुवे स्वाहा विभस्पते स्वाहा अभिभूषे स्वाहादये स्वाहा दिवाम्पदये स्वाहास्मत्या स्वाहा साक्षुष्मत्या स्वाहा ज्योतिष्मत्या स्वाहा आज्ञे स्वाहा विराज्ञे स्वाहा सम्राज्ञे स्वाहा स्वाज्ञे स्वाहा शुषाय स्वाहा शौर्याय स्वाहा चन्द्रमधे स्वाहा ज्योतिषे स्वाहा स्वगुण्सर्पाय स्वाहा कल्याणाय स्वाहा अर्जुनाय स्वाहा विपश्चिते भगवानाय गायता महीनधारा ग्रन्थो हरिषदेर्नामनिसर्पष्पजम् अत्यवनक्रीडम् नर्जुना हरिः वयामुहे नो चिमृत्यवे तादृष्टम् गृह्णामि एतदेवृत्यवे त्वा अपमृत्यमपक्षुधम् अपेदशपथन्दिः अधानः रायस्पोषकम् सहस्रिणम् एतेन हर्समयिकम्पाशाः मृत्युमत्याज हन्तवे ताः यज्ञस्य मालिराः सर्वानवैजामहे भक्षास्य मतभक्षः हस्यते मृत्यपेदस्यामतमतः स्वगागतस्य मधुमदः उपभूतस्यापहूतो भक्षयामि मन्द्राविभोजः केतुर्यज्ञानाम् वाहे असावेः असावेहि असावेः बज्राहारकरन्दयितलपान आस्तो असावेः आस्तोस्त्वाचक्षुः असावेः अपादाशोमनः असावेः कवे विप्रचित्ते श्रोत्र सुभस्तः सुभासाः शोषो नामास्यमृतो मत्तेषु तन्वाहम् तथा वेद असा वेहि अग्रन्मे वाजश्रुतः वाहृदये हृदयं मयि अहमुरे अमृतम् ब्रह्मणि वायुर्मे प्राणे श्रुतः प्राणोहृदये हृदयं मयि अहमुरे अमृतम् ब्रह्मणि सूर्यो मे चक्षुरिष्यतः चक्षुरहृदये हृदयं मयि अहमृदय अमृतम् ब्रह्मणि चन्द्रमा मे मननिष्यतः मनाहृदये हृदयं मयि अहमहृदय अमृतम् ब्रह्मणि श्रुताः श्रोत्र गुरुहृदये हृदयं मयि अहमहृदे अमृतम् ब्रह्मणि ृदये हृदयम् मयि अहमृतेर अमृतम् ब्रह्मणि पृथिवी मे शरीरे श्रुता शरीरकम् हृदये हृदयम् मयि अहमृतेर अमृतम् ब्रह्मणि वोषतिवनस्पदगो मे लोमश्रुता लोमानि हृदये हृदयम् मयि अहमृतेर अमृतम् ब्रह्मणि इन्दो मे मले श्रुतः पलकम् हृदये हृदयं मयि अहमतेर अमृतम् ब्रह्मणि वर्णम्यो मे मोर्ध्निष्यतः मोर्धाहृदये हृदयं मयि अहमतेर अमृतम् ब्रह्मणि ईशानो मे मन्यौषतः मन्यलहृदये हृदयं मयि अहमतेर अमृतम् ब्रह्मणि आत्मात्मनिष्यतः आत्मा हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणे पुनर्महात्मा पुनरायुरागात् पुनःप्राणः पुनरागोतमागा च्वारोधानः अन्तस्तिष्ठत्वमदस्य गोपाः मृगापदर्देवानसृजता ते पात्मना सन्दिता जायन्ताज्यते यद्व्यज्यते तस्माद्य तमवृश्य यदपृश्यत् तस्माद्दृष्टिः तस्माद्यत्रैते देवते अभिप्राप्नुतः विजहैवा सर्तपाप्मानम् यतः पृश्यतश्च तैामी मा पुंसाग्निहोत्रमेव सम्पन्ना <स्दुन्त> अथो आह सर्वे निज्ञश्मिते भोष्यन्नपोपस्पृशेत् विद्युदसि विद्यमेपात्मानमिति असहत्वपस्पृशेत् प्रश्लिरसि पश्च मे पात्मानमिति यक्ष्यमाणो वेष्वा वा विजय श्रीते देवदेवात्मानञ्जनः प्रश्लश्च अर्पुम्भोहारुणिः ब्रह्मचारिणे प्रष्टान् प्रोच्च प्रतिघाय परेः प्रक्षन्दय्याम् पादिम् पृच्छता <diver> इति समागत्यमप्रच्छा आचार्य मा प्राहैषेत् हेऽर्थजा इति सहो वाच वेदेति स कस्मिन्प्रतिष्ठित इति परोषेति कस्तद्यत्परोनजा इति एष वावसफलो जा इति होवाच न एष तपदि एषोर्वाद्रजा इति तस्मिन्द्वेष इति सत्य इति किं दत्सत्यमिति तपयिते तस्मिन्नुदप इति बल इति किं दद्बलमिति प्राण इति मा स्म प्राणमतिपृच्छदितिमाचार्याः प्रवेशिति होवाचब्रह्मचारी सहो वाचप्रक्षोदयाम्पादिः यद्वये ब्रह्मचारिम् प्राणमत्यः प्रक्षः ओर्थादेव्यपदिश्यते अहमुराचार्याच्छ्रेयान्भविष्यामि व्यो मा सा वित्रे समवादिष्टेति अस्मात् सा मित्रेण संवदेत स यो हवे सा मित्रम् विदुषा सा मित्रे संवदते सः स्मिन् श्रियम् दधाति अनुभवा अस्माहवतमश्रियम् मन्यते अन्वस्मै श्रेस्तपो मन्यते अन्वस्मै तपो बलम् अन्वस्मै बलम् प्राणम् मन्यते एताः सञ्ज्ञानम् विज्ञानम् दर्शा दृष्टेति एष एव तत् अथलाः प्रस्तुतम् विष्णुतकम् सुतासम् वतेति एष एव तत् चित्रः के तुर्दाता प्रदाता सविता प्रसविताभिशास्तानुमन्ते एष एव पदने एष केवते अण्ढमहोत्राः एष रात्रेः अथयताः पवित्रम् पवयिष्यान् सह स्वान् ऋणो ऋणरचा इति एष एव तदे एष एषमासाः अचयताः अग्निष्प्रामोक्तनिरतः प्रजापतिः संवत्सरे एष एव वदते एषक्ये मते यज्ञग्रजवः एष ऋदवः एष संवत्सरः अथैराः इदानीम् तदानीमिजे एष एवददे एष के पदे मुहूर्तानाम् मुहूर्ताः जनको हवैदेहः यो वा अस्मान् वेद विजहत्पात्मानमेते सर्वमायुरेदे अभिस्वर्गम् लोकम् जयते नास्यामुष्मल्लोकेऽन्नम् क्षीयत इति विजहद्धवीपात्मानमेते सर्वमायुरेदे अभिस्वर्गम् लोकम् जयते नास्यामुष्मल्लोकेऽन्नम् क्षीयते य एवम् वेद अजीनाः अश्वत्सः सा वित्रम् विदाञ्चकार सः हगुंसो हिरण्मयो भूत्वा स्वर्गम् लोकमियाय आदित्यस्य चायुज्यम् हगुंसो हवैः अण्मयो भूत्वा स्वर्गम् लोकमेति आदित्यस्य चायुज्यम् य एवम् वेद देवभागोः श्रौधर्जः सा वित्रम् वितांशकार रघुम्हभागदृश्यमानाभिवाच सर्वम् वद गौतमो वेद यः वेदेति सहोवाच कैलावागसैते अयमहगुंसा मित्रः देवानामुत्तमो लोकः महापि बिभ्रति एतावधिगौतमः महा, यज्ञापवेशम् कृत्वा सोऽपपात न मो न मयिके सहोवाच मा भैषेर्गौतमा वितो तस्माद्येते तथा तस वित्रम् पितुः सर्वे ते जितलोकाः तयो हैधा वित्रस्याष्टाक्षरम् पदर्गश्रियाभिक्तम् वेद श्रियाहैवाभिरित्ये अक्षरे सूर्यैरित्रेण आदित्यैरित्रेण एतद्वैषा वित्रस्याष्टाक्षरम् पदर्गश्रियाभिक्तम् एवम् वेद श्रिया हैवाभिरुच्यते तदेतदिताभ्युक्तम् ऋतोक्षरे परमेकरिष्यति यत्तद्विदुत्वमे समासविति न भवानेतस्तर्चा इदु शानुदाम्नार्थोऽस्ति यस्सामित्रम् वेद तदेतत्परि यद्देव चक्रम् आर्द्रम् पिण्डमानज्ञः स्वर्गे लोकयेति विजहद्विश्वा भूतानि सम्पश्यते आगतो हवे पृणमानस्वर्गे लोकयेति विजहन्विश्वा भूतानि सम्पश्यन् य एवम् वेद शोषो हवैवाश्मेयः आदित्येन समाजकाम प्रगमोहोवाच ये हि सा वित्रम् विद्धि अयम् वै स्वर्गोग्न्यः पाष्टमदा सम्भोधये एष वा तथा विद्धि इति हैमेन तदुवाच इयम् वामसरथा अस्याग्निरेवताम् मधु या एताः पूर्वपक्षामलपक्षयोरात्रयः तामसुनः याण्यहाने हेमधुवृषाः स्वयोहबालेतामसुकृतश्च मसुपृषाश्च वेद कुर्वन्ति हाश्रयिताग्नौ मधु नास्ये प्राभूर्तम् धयन्ति असयो न वेदा नैताग्नौ मधु भयन्तस्येष्टामूर्तम् यो हवाहोरात्राणाम् नामधेयानि वेद नाहोरात्रेष्वार्तिमार्चते सञ्ज्ञानम् विज्ञानं दर्शा तिष्ठेति एतावनुवाकापूर्वपक्षस्याहोरात्राणाम् नामधेयानि ना प्रस्तुतम् विस्ततकं सुरासम् वदेति एतावनुवाकावपलपक्षस्याहोरात्राणाम् नामधेयानि ना आहोरात्रेष्वार्तिमार्च्छति तदेवम् वेद यो हविमुहूर्तानामनानुवेद नमोहोर्त्रेष्वार्तिमाच्छति चित्रः केतुर्दाप्रदा प्रदविताभिस्तानुमन्त्रेति एतेन वाकामुहूर्तानाम् नामधेयानि नमोहर्तेष्वार्थिमार्च्छति य एवम् वेद र्धमासानाहञ्जमासानाञ्जनामधेयानि वेद नार्धमासेष्णमासेष्वामार्च्छति पवित्रम् पवयिष्यान् सहस्वान् सहीजानृणो ऋणर्जाये एतेन वाकार्धमासानाहञ्जमाधानाञ्जनामधेयानि नार्धमासेष्णमासेष्वामार्च्छति त एवम् वेद जापदिवत्सर इति एतेन वाकायज्ञानि अयज्ञमार्चति वेद यो ह विमुहूर्तानाम् मुहूर्तानि वेद न मुहूर्तानाम् मुहूर्तेष्वात्विमार्चति इदानीम् तदानीमि एते विमुहूर्तानाम् मुहूर्ताः न मुहूर्तानाम् मुहूर्तेष्वात्विमार्च्छति य एवम् वेद अथो यथा क्षयत्रज्ञामूर्तान् वेदान। प्रविश्यान्नमत्ति एवमेवैतांशे कृज्ञो भूत्वानुप्रविश्रान्नमत्ति स यतेजामेव सु लोकसागुंसायुज्यमश्रुते अपमतम् मृत्युम् च यदि एवम् वेद कश्चिद्भवा अस्माल्लोकात् प्रेत्य आत्मानम् वेद अयमहमस्मीति कश्चित्स्वम् लोकम् स्वम्लोकण्प्रजानादिगुम्सा <Sumas>, मित्रम् वेदवास्मान् लोकात्मानम् वेद अयमहमस्मेति सस्मम् लोकम् पतिप्रजानादि एकुभेवेन तत्सा मित्रः स्वर्गम् लोकमधिवहति होरात्रैर्वा इदगुम्भेभ्यः क्रियते इति रात्रागादीक्षिषता त्राय मृतमुपा गुरुजे ता निहानेवम् विदुषः अमुष्मिल्लोकेशे मथिञ्झयन्ति भेदगम् हैवस चे मथिमनुपरैति अथयो हैवेतमभ्येदम्भामित्रम् वेद तस्य हैवाहो रात्राणि अमुष्मिल्लोकेशे मथिर्नशयन्ति अभेदकम् हैवस चे मथिमनुपरैति भरद्वाजोः त्रिभिरायुर्भर्ब्रह्मजर्यमवाच तगम् भजेस्थभिरघुंशयानम् इन्द्रो व्रजोवाच भरद्वाज यद्यतुत्सवायुर्द्या किमेन कु्यागिरे ब्रह्मचर्यमेवेन चेमिति होवाच रगौहत्वेन्पानविज्ञातानि ते मदलयाञ्चकार तेषा गौहैकैकस्मान्मुष्टिनाददे स होवाच भरद्वाजेत्यामन्त्र्या वेदावायते अनन्तावैवेताः एतद्वानेतैः स्त्रिभिराजुर्भिरन्दमोचः असदैतरतनुनोक्तमेव हे हैमम् विद्धे अयम् वैशम्यविद्येते तस्मै हैतमद्यपुंसामित्रमुवाच तपुंसविष्वा अमृतो भूत्वा स्वर्गम् लोकमियाय आदित्यश्च चायुज्यम् अमृतो हैमभूत्वा स्वर्गम् लोकमेति आदित्यश्च यदेवम् वेद एषो नरी विद्या यावन्तको हवै त्वय्या विद्यया लोकम् जयति तावन्तम् लोकम् जयति तदेवम् वेद अग्नेर्वा नामधेयानि अग्नेरेव सायुजकम् स लोकता माप्नोति तदेवम् वेद नामधेयानि वायोरेव सायुजकम् स लोकता य एवम् इन्द्रस्य वा नामधेयानि इन्द्रस्यैव सारिव्यगुङ्कलोकतामाप्नोति ह एवम् वेद बृहस्पते अर्वा नामधेयानि बृहस्पतेरेव सारिव्यगुन्तलोकतामाप्नोति य एवम् वेद प्रजापते अर्वा नामधेयानि प्रजापतेरेव सारिव्यगुङ्कलोकतामाप्नोति ह एवम् वेद ब्रह्मणोपायेतानि नामधेयानि ब्रह्मणकेव युज्यपुंसलोकतामाप्नोति एवम् वेद सवावेशोक्षपुच्छो वाजुरेव तस्याव्यमुखम् तथा वा नित्यशिलः एते देवते दे दे अन्तरेण तत्सर्वकंसीव्यति तस्मात् सावित्रः ओ लोको हि स्वर्गो अनन्तोऽस्य बालोसि अक्षितोऽस्य क्षय्योसि तपसः प्रतिष्ठा त्वयीनमन्तः विश्वम् यक्षम् विश्वम्भूतम् विश्वगङ्गभूतम् विश्वस्य भर्ता विश्वस्य जनयिता तन्तोपधेकामधुखमक्षितम् प्रजापजस्त्वासादयतु प्रजादेवतयाङ्गिरस्पध्रुवाधीना तपोधिलोके शितम् तेजसप्रतिष्ठा विश्वैयक्षम् विश्वम्भूतम् विश्वकुंसभूतम् विश्वस्य भद्र विश्वस्य जनयत्रे तत्तोपदधे कामधुखमक्षितम् प्रजापचस्पासादयतो प्रजादेहस्वध्रुवाधीया तेजोजनपजतम् समुद्रस्य प्रतिष्ठा प्रजीलमन्तः विश्वैयक्षम् विश्वम्भूतम् विश्वगंसभूतम् विश्वस्य भद्रविश्वस्य जनयत्रे तत्तोपदधे कामधुखमक्षितम् प्रजावजस्वासादयतो प्रजादयाङ्गिरस्मद्भ्रुवाधीना समुद्रोजय श्रितः अपाम्रेष्ठामन्तः विश्वम् यक्षम् विश्वम्भूतम् विश्वगन्धभूतम् विश्वस्य भक्ता विश्वस्य परन्तोपथेकामदुखमक्षितम् प्रजावजस्त्वाचारतो प्रजाङ्गिरस्मद्भ्रुवाधीना आपस्थमुद्रे श्रिताः पृथिव्या प्रतिष्ठा युष्मासो हिमन्तः विश्वै यक्षम् विश्वम् भोतम् विश्वगुङ्भूतम् विश्वस्य भक्त्यो विश्वस्य जनयत्र्यः कावपदे का मनुभाक्षिताः प्रजापजस्वासादयतो प्रजादेवदयाङ्गिरध्रुवाधीरा पृथिव्यः सप्तश्रुता अग्नेः प्रतिष्ठा प्रेदमन्तः विश्वै यक्षम् विश्वम् भोतम् विश्वगुम् दभूतम् विश्वस्य भक्ति विश्वस्मिदयति तान्तोपथेका मधुघामक्षिता प्रजापजस्वासादे प्रजादेपदजाङ्गध्रुवाधीत अग्निरति पृथिव्याविश्रितः अन्तरिक्षस्य प्रतिष्ठा प्रीतमन्तः विश्वै यक्षम् विश्वम्भूतम् विश्वकुन्तभूतम् विश्वस्य भर्ता विश्वस्य रेखा अन्तोपदथेका मधुघमक्षितम् प्रजापजस्त्वासादेतो प्रजादेवतयाङ्गिरस्मध्रुवाधीर अन्तरिक्षमस्य अग्नौ श्रितम् वायोः प्रतिष्ठा पयेतमन्दः विश्वम् विश्वम् भूतम् विश्वकुन्तभूतम् विश्वस्य भद्रविश्वस्य जनयते तत्तोपदधेखामुखमक्षितम् प्रजापतिष्पादानयतो प्रजादेवतयाङ्गिरस्मध्रुवाधीना वायुरस्य अन्तरिक्षणे श्रितः दिवः प्रतिष्ठा पयेतमन्दः विश्वै यक्षम् विश्वम् भवतम् विश्वगुन्दभूतम् विश्वस्य भक्ता विश्वस्य जनयिता अन्त्वापदयतामदमक्षिणम् प्रजापतिस्पसादयङ्गिनस्पध्रुपादेन योरतिवायोष्यता आदित्यस्य प्रतिष्ठा प्रयतमन्तः विश्वै यक्षम् विश्वम् भवतम् विश्वगुन्दभूतम् विश्वस्य भक्त्री विश्वस्य जनयित्री तान्त्वपतिधेकामनुगामक्षिदा प्रजापतिस्पासादयतु प्रजा दे मदयाङ्गिरस्वध्रुवादे आदित्योतिनिविश्रितः छन्दपदप्रतिष्ठा येन विश्वम् यक्षम् विश्वम् भूतम् विश्वस्य भ्रा विश्वस्त अन्तोपतिधेकामधुगमक्षिणम् रयापतिस्तादयतो रया दे मदयाङ्गिरस्वध्रुवादेन चन्द्रमास्य नित्ययः श्रुतः नक्षत्राणाम् प्रतिष्ठा पदीतमन्तः विश्वै यक्षम् विश्वम्भूतम् विश्वगुन्तभूतम् विश्वस्य भक्ता विश्वस्य जनयिताः कन्दोपतधेकामधुकमक्षिणम् अजामजस्वासादयतो अजा देवतयाङ्गिलस्पध्रुवादीता नक्षत्राणिश्च चन्द्रमधि श्रुतानि संवत्सरस्य प्रतिष्ठा युष्मासो विदमन्तः विश्वै यक्षम् विश्वम् भवतम् विश्वगुन्दुभूतम् विश्वस्य भर्ते विश्वजनयिते कानि बहुपदथे कामुदुकान्यक्षितानि प्रजापतिस्वासादे प्रजा देवदयाध्रुवाधीतसरो सुलक्षत्रेण स्थितः विश्वैरक्षम् विश्वम् भवतम् विश्वगुन्दुभूतम् विश्वस्य भर्ता विश्वस्य अन्तोपतथेकामनुभमक्षितम् प्रजापजस्पाशादेत अजादेपदयाङ्गिरस्पद्रुवाधीता प्रथमस्थनम् वत्सरे श्रिताः वासानाम् प्रतिष्ठा युष्पादो हितमन्तः विश्वयक्षम् विश्वम् भवतम् विश्वगुम् न भवतम् विश्वस्य भर्तारो विश्वस्य जनेतारः तान उपतथेकामनुखानक्षितान् प्रजापतिस्पाशादेत तया देवदयाङ्गिरध्रुवासीत मासाः सप्तदशताः अक्षमासानाम् प्रयक्षायष्मासो इदमन्तः विश्वै यक्षम् विश्वम् भूतम् विश्वकुंसभूतम् विश्वस्य भक्तादो विश्वस्य जनयितारः आनवौपुखानक्षिता प्रजापयस्वासादे प्रजा देवदयाङ्गिरस्वद्ध्रुपाधीत अर्धमासास्थमादिश्रिताः अहोरात्रयो प्रतिष्ठा युष्मासु इदमन्तः विश्वै यक्षम् विश्वम्भूतम् विश्वगुङ्भूतम् विश्वस्य भर्तारो विश्वस्य जनयितारः तानधेका मधुका रक्षिता तजापरिस्पादेव तया देवतयास्पद्भ्रुपासीता भूतस्य प्रतिष्ठे भव्यस्य प्रतिष्ठे युवयोतमन्तः विश्वैयक्षम् विश्वम् भूतम् विश्वगुम्दभूतम् विश्वस्य पत्यौ विश्वस्य लेत्यौ एकामुपदधे कामदुघे अक्षिगे अजापदिस्वादालेदो रया देवतया इरस्पध्रुवासीन पोर्णमास्यष्टकामा वास्या अन्नादास्थानदुघो विश्वासु विदमन्तः विश्वैर्यक्षम् विश्वम् भवतम् विश्वकंसुभूतम् विश्वस्य भर्त्यो विश्वस्य नैत्र्यः ता नेकामधुभाक्षिताः गजापजस्वाचारेतो गजादेवदयाङ्गिरस्मद्भ्रुवादेत राणचतुहदे श्रीरजेन्द्रपत्नी धर्मपत्नी विश्वम्भूतमनुप्रभूता प्रजीतवन्तः विश्वैयक्षम् विश्वम्भूतम् विश्वकुंसुभूतम् विश्वस्य भर्त्री विश्वसृजनयत्रीपदधे कामधुकामक्षिणा प्रजापतिष्पादेनो प्रजा देवतया गिरस्मद्भ्रुवादीता ओजो हिजहोजि बलमनिर्भ्यायोजि देवानाभ्या मातम् ममत्यस्तकोजाः त्वरीतमन्तः विश्वम् यक्षम् विश्वम् भूतम् विश्वगुंसुभूतम् विश्वस्य भर्ता विश्वसृजनयिता तन्वोपनिषेकामुदुखपक्षितम् प्रजापतिस्वासारेतो त्रिगारे मदुजाङ्गिरस्पध्रुपादीत त्वमग्ने रुद्रोऽसुरो महो दिवः अरुषध्वोमारुतम् रक्षगीशिषे अंवातेरणेर्याजशङ्कजः पात्मना देवादेवेण श्रेध्वम् प्रथमाद्वितीरेणुश्रेयध्वम् द्वितीयास्तृतीरेणुश्रयध्वम् तृतीया चतुर्थेषुश्रयध्वम् चतुर्थाः पञ्चमेणुश्रयध्वम् पञ्चमा षष्ठेषु श्रयध्वम् षष्ठाः सप्तमेषुश्रयध्वम् सप्तमा अष्टमेषु श्रयध्वम् अष्टमा नवमेषुश्रयध्वम् नवमा दशमेषु श्रयध्वम् दशमा एकादशेषु श्रयध्वम् एकादशा द्वादशेषुश्रयध्वम् द्वादशास्त्रयोदशेषु त्रयोदशः चतुर्दशेण श्रयध्वम् चतुर्दशात् पञ्चदशेण श्रयध्वम् पञ्चदशः षोडशेण स्वयध्वम् षोडश सप्तदशेण स्वरध्वम् सप्तदशा अष्टादशेणुश्वरध्वम् अष्टादशादेकान्न विपुंसेणु स्वरध्वम् एकान्न विपुंसा विपुंसेण स्वरध्वम् द्वाविंसा विपंशेणश्रेयध्वम् त्रिणोंसाः चतुर्विगंसेणश्रयध्वम् चतुर्विगंसाः पञ्चविंशेणश्रयध्वम् पञ्चविगुंसाः षड्विगुंसेणश्रयध्वम् षड्विंसाः सप्तविभंसेणश्रयध्वम् सप्तविगुंसा अष्टाविपुंसेषश्रयध्वम् अष्टाविपुंसा एकान्नत्रिपुंसेणश्रयध्वम् एतान्नत्रिपुंसास्त्रिपुंसेणश्रेयध्वम् त्रिपुंशादेकत्रिपुंसेडुश्रेयध्वम् एकत्रिपुंशाध्वात्रिपुंसेडुश्रयध्वम् द्वात्रिपुंशास्त्रयस्त्रिपुंसेडुश्रेयध्वम् देवास्त्रिरेकादशास्त्रिस्त्रयस्त्रिपुंशाः उत्तरे भवता उत्तरवत्पानमुत्तरसत्त्वानः यत्कामगिजम् जहोमि तन्मयसमध्यता वयज्ञस्यामुपजारीणाम् भवस्व स्वाहा अज्ञाविष्णोजोषसा विमाबद्धन्तु माङ्गिरः निम्ने विमानेऽभिरागतम् राज्ञे विराज्ञेः स्राज्ञी स्वराज्ञेः अर्जशोजिः तपोहलोभाः अग्निः सोमो बृहस्पतिः विश्वे देवाभूरणस्य ते सर्वे सङ्गत्या इदम् मेऽप्रावतावचः अयज्ञस्यामबोरणीनाम् भोर्पमस्वस्वाहा अन्नपदेऽन्नस्य नो नोदेः अनमेवस्य शुष्पिणः प्रदातारन्तारिणः भोर्जन्नोदे द्विपदेष्पदे अग्नेपथिमीपदे सोमवीरुधाम्बदे स्पष्णः समिधाम् पदे विष्णवाशाणाम् पदे मित्रसत्यानाम् पदे वरुणधर्मणाम् पदे मर्दागणानाम् पदयः रुद्रपशूनाम् पदे इन्द्रौजसाम् पदे बृहस्पदे ब्रह्मणस्पदे आरुचालोचे अग्स्वयम् रुचादिरुचे लोचमानः अतीत्यादस्वराभदयः तस्मैनौ प्रजनौ प्रजाय भयज्ञस्य मम नियोनाम् भोद्भवस्व सप्तदे अग्ने समिदः सप्तऋषयः सप्तधामप्रियाणि सप्तहोऽत्र अनुविद्वान् सप्तयो लेलापणस्वाहृतेन काचीदि अग्निर्देवताः अग्निवंशदिशाम् देवम् देवतानावृच्छत्मेतस्य देवता दिशोऽभिजा दक्षिणादिक् दे। इन्द्रो देवताः इन्द्रंसदिशाम् देवम् देवतानावृच्छत् योमेकस्य दिशोऽभिदासने दे। प्रदेचेतुक सोमो देवता सोम पुंसदिशाम् देवम् देवतानामृच्छतो नोमेकस्ये दिशोऽभिदाशुने उदीचेदिक मित्रावरुणौ देवता मित्रावरुणौ स दिशाम् देवौ देवतानामृच्छतस्ये दिशोऽभिदाशिने ऊर्ध्वादिक बृहस्पतिर्देवता बृहस्पतिपुंसदिशाम् देवम् देवता नामृच्छतु नवमेतस्ये दिशोऽभिनाशने इयम् दिगे अनिर्देवता अभितिकङ्कुशिकाम् देवीम् देवतानामृच्छतु नोमेतस्ये दिशोऽभिनाशने दे पुरुषोदिके पुरुषोमेकामान् समर्थयतु अन्धो जागृविष्टाण असावेः बधिराक्रन्दैतरपान असावेः उषसमुषसमशीया अनमधो ज्योतिरशीया अहमसोपोषीय वयज्ञस्यामपरिवारीणाम् भवद्भवः स्वस्वाः यत्ते चिदन्य अग्ने यत्तपूरङ्गेतिरिक्तम् आदित्या स्तरङ्गिरश्चिन्वन्तो विश्वेते देवाश्च दिवापूरयन्तु चिदश्चाधिरश्चास्यग्ने एता वागश्चा तु भूयागश्चास्यग्ने लोकम् प्रणच्छिद्रम् प्रण अजोऽधीनशिवात्मम् इन्द्राग्ने बृहस्पतिः अस्मिन् योनापशेषदन् प्रजा देवदजाङ्गिरस्मद्भ्रुवाधीनस्य चोदजोहः सोमग्निश्रेणन्त्यश्नयः जन्मन् देवानाम् विशः पृष्ठने दिवः प्रजा देवदजाङ्गिरस्मद्भ्रुवाधीन अग्ने देवागम् विहावः जज्ञानो वृत्तमहिरे अधिहोता नरेभ्यः अजङ्गमहामनदायविष्टम् योगीतामिभ्यस्मे तु लोणे श्रिप्रभालोरोदधि अन्तरुे स्वाहुतम् विश्वनः प्रत्यन्तम् मेधाकारम् विदनस्य प्रसाधनम् अव्यगम् होतारम् परिभूतमम् मतिम् त्वामर्भस्य हविषस्त मानमिद देवा अग्ने पृष्पदुरः देवाङ्गे वायते अग्निभिः वाजिनम् विषे विराजविश्वदर्शनेः अग्निराजे स्वाभुवम् स प्रीतोजादितोदुर्भराफला पृष्ठो दिवि पृष्ठो अग्निः पृथिव्याम् पृष्ठो विश्वामो ऋविवेश हैश्वानः अयम् वावयः पवदे सोऽकेदः स यत्प्राम् पवदे पदः शिरः अथयद्दक्षिणः पक्षः अथयत्प्रत्यगे तत्पुच्छम् यदुगन् स उत्तरः पक्षः अथयत्संवादे पदस्वमञ्जनम् च प्रसारणम् च अथोकम्पदे वास्य योऽग्निर्नाजिकेतम् च लुजे भूजैनमेवम् वेद तो हवाग्नेर्नाचिकेदस्यायदनम् प्रतिष्ठाम् वेद आयुतवान् भवति गच्छतिर्प्रतिष्ठाम् हिरण्यम् वा अग्नेर्नाजिकेतस्यायदनम् प्रतिष्ठा हिमम् वेद आयुतवान् भवति गच्छनिर्प्रतिष्ठा दोहवाग्नेर्नाजिकेदस्य शरीरम् वेद स शरीर एवमस्वर्गम् लोकमेति हिरण्यम् वा अग्नेर्नायशरीरम् एवम् वेद स शरीरनेमस्वर्गम् लोकमेति अथो यथा ऋत्वमुत्पत्तो भाह्यात् एवमेव लोकाः एवरेनादित्यम् अथ हैते मरीयागुंसो लोकाः हे परेणादित्यम् अनन्तमन्तगो भवानेष क्षय्यल्लोकम् जयति यो वरेणादित्यम् अथ एषोऽनन्दमपारमक्षय्यल्लोकम् जयति यः परेणादित्यम् अनन्तगो भवापारमक्षय्यल्लोकम् जयति योज्ञन्नाशुचेतम् च नु च यौजैनमेवम् वेद अथो यथा रथे तिष्ठन्वक्षते पर्यावर्तमाने प्रत्यपेक्षते हे महोरात्रे प्रत्यवेक्षते नास्याहोरात्रे लोकमाहात्मनः यो जिन्नाजिघेदञ्च मृते यौ चैनमेमम् वेदा